गरुडपुराणम् प्रेतकाण्डम् धर्मकाण्डम् अध्यायम् सिक्स्टीन् श्रीभगवानुवाच एवं विलपतस्तस्य प्रेतस्यैवम् खगेश्वर क्रन्दमानस्य नितराम् पीडितस्य च किङ्करैः सप्तदशदिनान्येको वायुमार्गे विकृष्यते अष्टादशे त्वहोरात्रे पूर्वं याम्यपुरं व्रजेर तस्मिन् पुरवरे रम्ये प्रेदानां च गणो महान् पुष्पभद्रानदी तत्रन्यग्रोधप्रियदर्शनः पुरे स तत्र विश्रामं प्राप्यते यमकिङ्करैः जाया पुत्रादिकं सौख्यं स्मरेत्तत्र सुदुःखितः रुददे करुणैर्वाक्यैस्तृतार्षत् श्रमपीडितः स्वधनं स्वकलत्राणि गृहं पुत्रा सुखानि च भृत्यमित्राणि चान्यच्च सर्वं शोचति तदा शुद्धार्थस्य पुरे तस्मिन् किङ्गराैस्तस्य चोच्यते किङ्गरावौचुः क्व धनं क्व सुधाजाया क्व गृहं क्व त्वमीदृशः स्वकर्मोपार्जितम्भुङ्क्ष्वचिरं गच्छ महापद्ये जानासि शम्बलवशं बलमध्वगानां नो शम्बल प्रयतदे परलोकपान्ध गन्तव्यमस्ति तव निश्चितमेव तेन मार्गेण यत्र भवदत्क्रियविक्रयौ न यमदूदोदितं वाक्यं पक्षिन्नैवं त्वया श्रुतं एवमुक्तस्तदैः सर्वैर्हन्यमानः समुद्गरैः अत्र पात्रे स्नेहाद्वा कृपया धवा मासिकं पिण्डमश्रादि तद सौरिपुरं व्रजेद तत्र नाम्ना वै जङ्गमः तं दृष्ट्वा भयभीतस्तु विश्रामे कुरुते मदिम् उदकं चान्नसंयुक्तं भुङ्गदे तस्मिन् पुरे गतः त्रैपक्षिके तु यद्दत्तं सव्यदिक्रमेद नगेंद्र नगेन्द्रनगरे रम्ये प्रेदो या दिडिवानिशं रौद्राणि दृष्ट्वा क्रन्दन्ति तत्र सः भीषणै क्लिश्यमानस्तु रुदते च पुनः तत्पुरं सोऽधिगच्छति भुक्त्वा चान्नं जलं पीत्वा यद्दत्तं बान्धवैरिव क्लिश्यमानस्तदपाशैर्नोयदे यमकिङ्गरैः तृतीये मासि सम्प्राप्ते गन्धर्वनगरं शुभं तृतीयं भुक्त्वा तत्र गच्छत्य शैलागमं च मासे प्राप्नोति वै पुरं पाषाणास्तत्र वर्षन्ति प्रेदस्योपरि संस्थिताः चतुर्थमासिके श्राद्धं भुङ्े तत्र सुखी भवेत् ततो यातिपुरं प्रयत क्रूरं मासे द्विपञ्चमे इहं दत्तं सुताैर्भुङ्े प्रेदो वै तत्पुरे स्थितः षष्ठे मासि यादिक्रौञ्जाविधम् पुरम् तत्र दत्तेन तत्पुरं सव्यतिक्रम्य तर्जितो प्रयादि चित्रनगरं विचित्रो यत्र यमस्यैवानुजः सौर्यैर्यज्यं प्रशास्ति मासैस्तु पञ्चभिः सार्धैरूपषण्मासिकं भवेद ऊन षण्मासिकं तत्र भुङ्कृते याम्यसमाहदः मार्गे पुनः पुनस्तस्य बुभुक्षा पीडयत्यलम् सन्धिष्ठदे मृदे कोऽपि मदीयसुधबान्धवः सौख्यं यो मे जनयदि सागरे एवं मार्गे विलपति वाज्यमानश्च किङ्गरैः आयान्ति संमुखास्तत्र कैवर्तास्तु सहस्रशः वयं देहर्तुकामायमः वै धरणीं नदीं सदयोजनविस्तीर्णां भूयशोनिदसङ्घुलां नानाचषसमाकीर्णां नानापक्षिगणैर्वृदां वयं त्वां तारयिष्यामः सुखेनेदि वदन्ति ते अन्दरं देहि भोपान्धबहुला चे दृजिस्तव तेन तत्र प्रदत्ता गौस्तया प्रसर्पदि मनुजानां हितं दानमन्धे वैतरणी स्मृता परापापं दहेत् सर्वं विष्णुलोकं च सा न दत्ता चेत् खगश्रेष्ठतां समेत्य समज्जति स्वस्थावस्थे शरीरेत्र वैधरण्याव्रतं चरेद धेया च विदुषे धेनुस्तां नदीं तर्तुमिच्छता अवदन्मज्जमानस्तु निन्दत्यात्मानमात्मना पाधयेर्पाधेयार्थं मया किञ्चिन्न प्रदत्तम् द्विजाय च न दत्तं न हृदम् जप्तं यादृश्यं कर्मचरितं मूढभुङ्क्ष्वेदि तादृश्यम् तथैव हृदि सम्मूढस्ताडिदो भाषदे भटैः वैतरण्यापरतटे कडादिकं दत्तम् कडाधिकम् ऊर्णषाण्मासिकश्राद्धम् भुक्त्वा गच्छति जाग्रदः तार्क्ष्य तत्र विशेषेण भोजये दद्विजाुभ्रान् चत्वारिंशत्तथा सप्तयोजनानि शतद्वयं प्रयादिप्रत्यहं तार्क्ष्य अहोरात्रेण कर्षितः सप्तमे मासि सम्प्राप्ते पुरं बह्वा पदं व्रजेत तत्र भुक्त्वा प्रदत्तं यच्छाद्धं सप्तममासिकम् अष्टमे मासि सम्प्राप्ते नानाक्रन्दपुरं व्रजेद नानाक्रन्दगणान् दृष्ट्वा क्रन्दमानान् सुदारुणं स्वयं च शून्यहृदयः समाक्रन्दन्ति तन्मासिकं च यत्रां भुक्त्वा तत्र भवेद विहाय तत्पुरं प्रेदोयादि तप्तपुरं प्रति सूप्ताप्तनगरं प्राप्य नवमे मासि सोक्ष्णुदे द्विज द्विजभोज्यं पिण्डदानं कृतं श्राद्धं सुते मासि वै दशमे प्राप्ते रौद्रं स्थानं स गच्छति दशमे मासि यद्दत्तं तद् भुक्त्वा च प्रयादिशः दशैकमासिकं भुक्त्वा पयो वर्षणमृच्छति मेकास्तत्र प्रवर्षन्ति प्रेदानां दुःखदायकाः तदप्रचलितो बोधो बहुर्खमृतुशार्थिदः द्वादशे मासि यच्छ्रादं किञ्चिन्यूने तदो वर्षे सार्धे चैगादशे धवा यादिशीदपुरम् तत्रशीदं यत्रादि यत्रादिदुःखदम् शीतार्थः क्षुदितसोधवीक्षदेहि दिश्यो दश तिष्ठे तु बान्धवको वि यो किङ्करास्तं वदन्त्येवं क्व ते पुण्यं हि तादृशं श्रुत्वा तेषां तु तद्वाक्यं हा दैव इति भाषते दैवं हि पूर्वसुकृतं तन्मया नैव सञ्चितम् एवं सञ्चिन्त्य बहु स्यो धैर्यमालम्बदे चतुर्युक्तानि वैदः धर्मराजपुरम् रम्यम् गन्धर्वाप्सराकुलम् चतुरशीतिलक्षैश्च मूर्ता मूर्तैरधिष्ठितम् त्रयोदशप्रतिहारा धर्मराजपुरे स्थिताः शुभाशुभम् तु यत्कर्मदे श्रवणा ब्रह्मणपुत्रा मनुष्याणाम् च चेष्टितम् कथयन्ति तदा लोके पूजिता पूजिता स्वयं नरैस्तुष्टैश्च पुष्टैश्च यत्प्रोक्तं च कृतं च यद् सर्वमावेदयन्ति स्म चित्रगुप्ते यमे च तद दूराश्रवणविज्ञानदूरा दर्शनगोचराः एवञ्चेष्टास्तु ते ह्यष्टौ स्वर्भूपातालचारिणः तेषाम् पत्न्यस्तथैवोग्राश्रवण्यपृथगाह्वयाः एवम् तेषाम् शक्तिरस्ति अर्थे मर्त्याधिकारिणः व्रतैर्धानैस्तवैर्यश्च पूजये दिघमानवः जायन्ते तस्य ते सौम्य सुखमृत्युप्रदायिनः इति डे महापुराणे उत्तरखण्डे प्रेतकल्पे श्रीकृष्णगरुडसंवादे प्रेतयात्रादिनिरूपणं नाम षोडशोऽध्यायः ओम् अध्यायम् सेवन्टीन् गरुड उवाच एको मे संशयो देवहृदये सम्प्रबाधते दे। श्रमणाकस्य पुत्राश्च कथं यमपुरे स्थिताः मानुषैश्च कृतं कर्म कस्माज्जानन्ति ते प्रभो कथं शृण्वन्ति ते सर्वे कस्मात् ज्ञानं समागतं कुत्र भुञ्जन्ति देवेश क्रथयस्वप्रसादतः पक्षिराजवच श्रुत्वा भगवान्नुवाक्यमब्रवीद श्रीकृष्ण उवाच शृणुष्वचनं सत्यं सर्वेषां सौख्यदायकं तदखं कथयिष्यामि श्रवणानां विचेष्टितं यज्ञीभूतं यदा सर्वं जगस्तावरजङ्गमं क्षीरोदसागरे पूर्वं मयि सुप्ते जगत्पधौ नाभिस्थोचस्तपस्तेऽपि वर्षाणि सुबहून्यपि ये की भूतम् जगत्सृष्टम् भूतग्राम च दुर्विधम् ब्रह्मणा निर्मिदम् विष्णुना पालिदम् तदा रुद्रः संहारमूर्तिश्च निर्मिदो ब्रह्मणा तदः वायुः सर्वगतसृष्टसूर्यस्तेजोऽभिवृद्धिमान् धर्मराजस्ततसृष्टश्चित्रगुप्तन संयुत श्रेष्ठुवैतदाधिकं सर्वं तपस्ते तपस्तेभेदुपद्मजः गतानि बहुवर्षाणि ब्रह्मणो नाभिपङ्कजे यो यो हि निर्मितपूर्वं तत्तत्कर्म समाचरेद कस्मिंश्चित्समये तत्र ब्रह्मा लोकसमन्वितः रुद्रो विष्णुस्तदा धर्मशासयन्दिव सुन्दराम् न जानीमो वयम् किञ्चिल्लोककृत्यमिहोच्यताम् इति चिन्तापरः सर्वे देवा विमृश्यस्तदा सम्चिन्त्य ब्रह्मणो मन्त्रम् प्रेरितस्तदा गृहीत्वा पुष्पपत्राणि सोऽसृज द्वादशात्मजान् तेजोराशीन् विशालाक्षान् ब्रह्मणो भजनात्सुते योऽयं वदति लोकेऽस्मिन् शुभं वा यदि वा शुभं प्रापयन्ति तथा शीघ्रं ब्रह्मणकर्णगोचरं दूराश्रवणविज्ञानं दूरादर्शनगोचरं सर्वे शृण्वन्ति यत् पक्षिंस्तेनैव स्थित्वा चैव तथा काश्ये जन्तूनां चेष्टितं च यद तत् ज्ञात्वा धर्मराजाग्रे मृत्युकाले वदन्ति च चा। धर्मं चार्धं च कामं च मोक्षं च कथयन्ति ते एको हि धर्ममार्गश्च द्वितीयश्चार्थमार्गकः अपरकाममार्गश्च मोक्षमार्गश्च दुर्धकः उत्तमा धममार्ग्रेण वैनते यः प्रयान्तिः अष्टदाविमानैस्तु अश्वै कामप्रदायकः हंसयुक्तविमानैश्च मोक्षाकाङ्क्षी विसर्पदि इतरपादचारेण त्वसि पत्रवनानि च पाषाणैकण्डकै क्लिष्टपाशबद्धोथ यादि वै यः या कश्चिन् मानुषे लोके श्रवणान् पूजयेदिहा वाधुकन्याजलपात्रेम भक्वान्न परिपूर्णया श्रवणान् पूजये तत्रमया सह खगेश्वर तस्याहं तत्प्रदास्यामि यत्सुरैरपि दुर्लभं सम्भोज्य ब्राह्मणान् भक्त्या त्वेकादश शुभाञ्चुचीन् द्वादशम् सकलत्रम् च मम प्रीत्यै प्रपूजयेद् देवैः सर्वैश्च सम्पूज्य स्वर्गम् यान्ति सुखेप्सया तैः पूजितैरहतुष्टश्चित्रगुप्तेन धर्मराध तैस्तुष्टैर्मत्पुरम् यान्तिलोकाधर्मपरायणः श्रवणानां च माहात्म्यमुत्पत्तिम् चेष्टितम् शुभम् शृणोदिपक्षिशार्दूल स च पापैर्नलिप्यते इह लोके सुखम् भुक्त्वा स्वर्गलोके महीयते इति श्रीगारुडे महापुराणे उत्तरकाण्डे प्रेतकल्पे श्रवणमाहात्म्यनिरूपणं नाम सप्तदशोऽध्यायः ओम् अध्यायम् एन् श्रीकृष्ण उवाच श्रवणानाम् वच श्रुत्वा क्षणम् ध्यात्वा पुनस्तदः यत्कृतम् तु मनुष्यैश्च पुण्यम् पापमहर्निश्यम् तत्सर्वम् च परिज्ञाय चित्रगुप्तो निवेदयेत् चित्रगुप्तस्ततः सर्वम् कर्म तस्मै वदत्यथ वाचैव यत्कृतं कर्मकृतं चैव दुःखायेकं मानसं च तथा कर्मकृतं भुङ्े शुभाशुभम् एवं ते कथितस्तार्क्ष्यप्रेतमार्गस्य निर्णयः विश्रान्तितानि सर्वाणि स्थानानि कथितानि ते सुखं यादिमहाध्वनि दिवारात्रौ तमुद्दिश्य स्थाने दीपप्रदो भवेद अन्धकारे महाघोरे स्वपूर्णे लक्ष्यवर्जिदे दीप्ते ध्वनि च देयान्ति दीपो दत्तश्च यैर्नरैः कार्तिके चतुर्दश्यान्दीपदानं सुखाय वै अधवक्ष्यामि सङ्क्षेपाद्य ममार्गस्य निष्कृतिं वृषोत्सर्गस्य पुण्येन पितृलोकं स गच्छति यकादशाखपिण्डेन शुद्धदेहो भवेत्तदः उद कुम्भप्रदानेन किङ्कदास्तृप्तिमाप्नुयुः शय्या दानाद् विभा विमानस् तो यादि यादिस्वर्गेषु मानवः तदग्नि दीयते सर्वम् द्वादशाहे विशेषदः पदानि सर्ववस्तूनि वरिष्ठानि त्रयोदश्ये यो ददादि मृदस्येह जीवन्नप्यात्महेतवे तदा श्रुतो महामार्गे वैनतेयसगच्छति एक वास्ति सर्वत्रे व्यवहारखदाधिप उत्तमाधम मध्यान्नम् मध्यानां तत्तदावर्जनं भवेद् यावद्भाग्यम् भवेद्यस्य तावन्मार्गेऽतिरिच्यते स्वयं स्वस्यन यद्दत्तं तत्तत्राधिकरोदितं मृदे यद् बान्धवैर्दत्तम् तदाश्रित्य सुखी भवेद गरुड उवाच कस्मात् पदानि देयानि किं विधानि त्रयोदश दीयदेकस्य देवेश तद्वदत्स्व यद्धा तं श्रीभगवानुवाच चत्रोपानहवस्त्राणि मुद्रिकाचकमण्डलुः आसनं भजनं चैव पदम् सप्तविधम् स्मृतम् आतपस्तत्रयो रौद्रो दह्यते येन मानवः सत्रदानेन शुच्छाया जायदे प्रेदतुष्टिदा असि पत्रवनं घोरं सोऽधिक्रामदि वैध्रुवम् अश्वारूढाश्च गच्छन्ति ददते य उपानहौ आसने स्वागदे चैव तस्मै द्विजायदे सुखेन भुङ्क्ते सप्रेधपदि गच्छञ्चनैश्चनैः बहुधर्मसमाकीर्णे निर्वादे तोयवर्जिते कमण्डलुप्रदानेन सुखी भवति निश्चितं मृदोद्देश्येन यो दद्या दुतपात्रं तु ताम्रजम् प्रपादानसहस्रस्य तत्फलम् सोऽश्नुते ध्रुवम् यमदूदामः रौद्रा करालकृष्णपिङ्गलाः न पीडयन्दिदाक्षिण्या द्वस्त्रा भरणदानदः सा युधा धावमानाश्च न मार्गे दृष्टिगोचराः प्रयान्ति यमदूतास्ते मुद्रिकाया प्रदानदः भाजनासनदानेन आमन्नभोजनेन च आज्ययज्ञोपवीताभ्याम् पदम् सम्पूर्णतां व्रजेद एवमार्गे गच्छमानस्तृषार्थश्रमपीडितः महीषीरददाना च सुखी भवति निश्चितं गरुड उवाच स गच्छति महामार्गे तद्दत्तेन गृह्यते श्रीभगवानुवाच गृह्णादिवरुणोदानं मम हस्ते प्रयच्छति अहं च भास्करे देवे दे सुखं विकर्मणप्रभावेण वंशच्छेदेक्षिदाविह सर्वे ते नरकम् यान्ति यावत् पापस्य संक्षयः कस्मिंश्चित्समये पूर्णे महिशासनसंस्थितः नरकान्ुवीक्ष्य धर्मात्मा नाना क्रन्दसमाकुलान् चतुरशीतिलक्षाणाम् नरकाणाम् स ईश्वरः तेषाम् मध्ये श्रेष्ठतमा होराया एकविंशतिः तामिस्त्रं लोकशङ्कुश्च महारौरवशामली रौरवं कुड्वलं कालसूत्रकं भूदिमृत्तिका सङ्घातं लोह तोदं च सविषं सम्प्रतापनं महानारककालोल्लसजीवनमहापथः अवीचिरन्धदामिस्त्र कुम्भोपाकस्तथैव च असिपत्रवनं चैव पदनश्चैव विंशतिः येषां अब्दानि गदानि वै सन्धातर्णव विद्यते दूतत्वं तु दूतत्वं ते दु दिने दिने प्रगृह्णन्ति दत्त मन्नाद्यपानकम् प्रदस्यैव विलुण्ठन्ति मध्ये मार्गे बुभुक्षिताः मासान्दे भोजनं पिण्डमेघे तृप्तिं प्रयान्ति ते सर्वे प्रत्यकं चैव वत्सरम् एवमातृकृधाय पुण्याय प्रमात् सौरिपुरम् व्रजेद ततः प्रत्यासन्ने यमालये बहुभीतकरे प्रेदो हस्तमात्रम् समुत्सृजेद दिवसैर्दशभिर्जातम् तम् देहम् दशपिण्डजम् जामदग्न्यस्येव रामम् दृष्ट्वा तेजप्रसर्पदि कर्मजं देहमाश्रित्य पूर्वदेहम् समुत्सृजेत् अङ्गुष्ठमात्रो वायुश्च शमीपत्रम् समारुहेत वज्रं तिष्ठन्पदैकेन यद्धैवैकेन गच्छति यथातृनजलौकेन देही कर्मानुगो वशः वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोपराणि तथा शरीराणि विहाय जीर्णान्यन्यानि संव्याधि नवानि देही इति श्रीगारूडे महापुराणे द्वितीयांशे धर्म तदृपेदृ श्रीकृष्णगरुडवृषोत् सर्गनादानफलयमलोकगमनकर्म च देहप्राप्ति निरूपणम् नामाष्टादशोऽध्यायः ओम् अध्यायम्टीन् श्रीभगवानुवाच वायुभूतः क्षधाविष्ठकर्मजं देहमाश्रितः समासाध्ययमेन सह गच्छति चित्रगुप्तपुरं तत्र योजनानां द्विंशतिः कायस्तास्तत्र पश्यन्ति पापपुण्यानि सर्वशः महादानेषु दत्तेषु गतस्तत्र सुखी भवेद योजनानां चतुर्विंशत्पुरं वैवस्वतं शुभम् लोहं लवण कार्पासं तिलपात्रं च यैर्नरैः दत्तं तेनैव तृप्यन्ति यमस्य पुरचारिणः गत्वा च तत्र ते सर्वे प्रतिहारं वदन्ती हि धर्मध्वजप्रतिहारस्तत्र तिष्ठति सर्वदा धान्यस्य दानेन प्रीदो धर्मध्वजो भवेद तत्र गत्वा प्रतिहारो ब्रूदे तस्य शुभाशुभम् धर्मराजस्य यद्रूपम् सन्तः सुकृतिनो जनाः पश्यन्ति च दुरात्मानो यमरूपम् सुभीषणम् तम् दृष्ट्वा भयभीतस्तु हाघेति वददे जनः कृतम् दानम् च यायैर्मार्त्या्यायस्तेषाम् नास्ति भयम् क्वचिद प्राप्तं सुक्रुदिनं दृष्ट्वा स्थानाचलति सूर्यजः यशमे मे मण्डलं भित्त्वा ब्रह्मलोकं प्रयास्यति दानेन सुलभो धर्मोऽयमर्गसुखावहः यषमार्गो विशालोऽत्र न केनाप्यनुगम्यते दानपुण्यं विना वत्स न गच्छेत् धर्ममन्दिरम् तस्मिन् मार्गे दुरौद्रे वैभीषणायमकिङ्कराः ये कैकस्य पुरस्याग्रे तिष्ठत्येकसहस्रकम् उदके यादनाकराः गृह्णन्ति मासमासां दे पादशेषम् तु तद्भवेद दैहिकदानानि यैर्नदत्तानि महाकष्टेन देयान्ति तस्माद्देयानि शक्तितः अदत्वा पशुवद्यान्ति गृहीतो बन्धबन्धनैः एवं कृतेन नरभूद नरभूतकर्मणा दैविकं पैतृकीं योनि निम्मनुषीं बाध नारकीम् धर्मराजस्य वचनान्मुक्तिर्भवति वा तदः मानुष्यं तत्त्वदप्राप्य स पुत्रपुत्रतां व्रजेत् यथा यथा कृतं कर्मतां तां योनिं व्रजेन्नरः तत्तथैव च सर्वलोकः अशाश्वतं परिज्ञाय सर्वलोकोत्तरं सुखम् यदा भवति मानुष्यं तदा धर्मं समाचरेद कृमयो भस्मविष्टा वा देहानां प्रकृतिः सदा अन्धकूपे महारौद्रे दीपहस्तपदे तु वै महापुण्यप्रभावेण मानुष्यं जन्म लभ्यते यस्तत्प्राप्यचरिद्धर्मं स गच्छेत् परमां आपि जानन् वृद्धा धर्मं दुःखमायातियाति च जातीषदे न लभदे किलमानुषत्वम् तत्रापि दुर्लभतरम् कगभो द्विजत्वम् यस्तत्र पालयति लालयति व्रतानि तस्या मृतम् भवति अस्तगदम् प्रसादाद इति श्री गारुडे हापुराणे उत्तरकाण्डे धर्मकाण्डे प्रेतकल्पे श्रीकृष्ण श्रीकृष्णगरुडसंवादे यममन्दिरप्रवेश तदाज्ञालब्धमनुष्यादिदेहान्तरप्राप्तिनिरूपणं नामैकोन विंशोऽध्यायः अध्यायं 20 गरुड उवाच ये केचित्प्रेदरूपेण कुत्र वासं लभन्ति ते प्रेदलोकाद्विनिर्मुक्तात् कथं कुत्र व्रजन्ति ते चतुर्युक्ताशीतिलक्षैर्नरकैपर्युपासिताः यमेन रक्षितास्तत्र भूतैश्चैव सहस्रशः विचरन्ति कथं लोके नरकाश्च विनिर्गदाः गरुडो दीरितं श्रुत्वा लक्ष्मीनाथो ब्रवीदितं श्रीकृष्ण उवाच पक्षिराजशृणुष्वत्वं यत्र प्रेदाश्चरन्ति वै परार्थदारग्रहणाच्छलाद्रोकान्निश्चाचराः तथैव सर्वपापिष्टस्वात्मजान्वेषणे रदाः विचरन्त्यशरी विचरन्त्यशरीरास्ते क्षुप्तिपाः सार्दिदा भृश्यं बन्दीगृहविनिर्मुक्ता येभ्यो नश्यन्ति जन्तवः ते व्यवस्यन्ति च प्रेदावधोपायं च पितृद्वदाराणि रुन्धन्ति तन्मार्गोच्छेदकास्तथा पितृभागान्ुविगृह्णन्ति पान्देभ्यस्तस्करा इव स्वम्बेश्म पुनरागत्य मित्रस्थाने विशन्ति ते तत्र स्थिता निरीक्षन्ते रोगशोकादिबन्धनाः पीडयन्ति ज्वरीभूय एकान्तरमिषेण तु तृतीयकज्वरा भूत्वा शीदवादादिपीडया अन्यांश्च विवितान् रोगान् शिरोर्तिं च विसूचिकां चिन्तयन्ति सदा तेषामुच्छिष्टादिस्थलस्थिदाः आत्मजानां भूतसङ्खैश्च रक्षिताः पिबन्ति ते जपनीयं भोजनोच्छिष्ट योजितम् एवं प्रेधा प्रवरुदन्ते नानादोषैर्विकर्मिणः गरुड उवाच कथं कुर्वन्ति ते प्रेधा केन रूपेण पश्य किं केन विधिना जल्पन्ति न वदन्ति वा मनोमोहं मम चेदिच्छसि प्रियम् कलिकाले प्रेदत्वं जायते बहु श्रीविष्णुरुवाच स्वकुलम् पीडयेत्प्रेद परच्छिद्रेण पीडयेद दा। जीवन्सा स स्नेही मृदो दुष्टत्वमाप्नुयाद रुद्रजापि धर्मरथो देवतातिथिपूजकैः पूजकः सत्यवाक्प्रियवादी च न प्रेतै स हि पीड्यते सर्वक्रियापरिभ्रष्टो नास्तिको धर्मनिन्दकः असत्यवादनिरधो नरप्रेतयि स पीड्यते कृदादौ द्वापरान्ते च न प्रेदो जादानामेक पीडनं बहूनामेकजातानामेकसौख्यं समश्नुदे एको दुष्कृत एको दुष्कृतकर्म च एकः सन्तधिमाञ्जनः एक सम्पीड्यते प्रेदैरेकसुतधनान्वितः एकस्य पुत्रनाश्च स्यादेको दुहि द्रुमान् भवेद विरोधो बन्धुभिः सार्धम् प्रेद दोषेण पश्यव सन्ततिर्दृश्यदेनैव समुत्पन्ना विनश्यति पश्युद्रव्यविनाशश्च सा पीडा प्रेतसम्भव प्रकृते परिवर्तस्या द्विद्वेष सह बन्धुभिः अकस्माद् व्यसनप्राप्तिसा पीडा प्रेदसम्भव नास्तिक्यं वृत्तिलोपश्च महालोभस्तथैव च स्याद्धन्तकलको नित्यम् सा पीडाप्रेदसम्भव पितृमातृनिघन्ता च देवब्राह्मणनिन्दकः इत्यादोषमवाप्नोति सा पीडाप्रेदसम्भव नित्यकर्म विनिम् मुक्तो जपहोम विवर्जितः परद्रव्याणां च हर्ता सा पीडाप्रेदसम्भवा सुवृष्टौ कृषिणा श व्यवहारो विनश्यति लोके कलसकारी च सा पीडाप्रेदसम्भवा मार्गे जंगम्यमानं तं पीडये द्वादमण्डली प्रेदपीडा तु सा ज्ञेया सत्यं सत्यं खगेश्वरा हीनजात्या च जा सम्बन्धो हीनकर्म करोधियः अधर्मेरमदे नित्यं सा पीडा प्रेदसम्भवा व्यसनैर्द्रव्यनाशस्यादुपक्रान्तं विनश्यति चौराग्निराजभिर्हानि सा पीडा प्रेदसम्भवा महारोगो महारोगोपलब्धिश्च बालकानाञ्च पीडनम् जाया सम्पीड्यते यच्च सा पीडा प्रेदसम्भवा श्रुति स्मृतिपुराणेषु धर्मशास्त्रसमुद्भवे अभावो जायदे धर्मे सा पीडाप्रेदसम्भवा देवतीर्थद्विजानाम् तु निन्ताम् यः करोत्यः नरः प्रत्यक्षं वा परोक्षं वा सा पीडाप्रेदसम्भवा स्ववृत्तिहरणं यच्च स्वप्रतिष्ठा हदिस्तथा वंशेद वंशश्चेदः न दृश्येदप्रेददोषाद्विनान्यथा स्त्रीणां गर्भविनाशस्य अन्नपुष्पं दृश्यते बालानां मरणं यत्र सा भावशुद्ध्या न कुरुदे श्राद्धम् साम्वत्सराधिकम् स्वयमेव न कुर्वीद सा पीडा प्रेदसम्भवा तीर्थे गत्वा परासकृतस्वकृत्यम् च परित्यजेद धर्मकार्ये न सम्पत्ति सा दम्पत्योकलहश्चैव भोजने कोपसंयुधः परद्रोहे मदिश्चैव सा पीडा प्रेदसम्भवा पुष्पम् यत्र न यत्र सा पीडा प्रेदस भवा येषाम् वैजायते स्वक्षेत्रे निष्फलम् तेजसा पीडा प्रेदसम्भवा स्वगोत्रकादकश्चैव हन्दिशत्रुमिवात्मजं न प्रीतिर्नापि सौख्यं च सा पितृवाक्यं न कुरुदे सदा क्रूरमतिर्व्यग्रसा कुरु पीडा प्रेदसम्भवा विकर्मा जायते प्रेदो या तथा तत्कालदुष्टसंसर्गाद्वृशोत्सर्गा हृदे तथा दृष्टगृत्युवशाद्वापि अदग्धवपुषस्तथा प्रतत्वम् जायते तार्श्य पीड्यन्ते येन जन्तवः ये एवम् ज्ञात्वा खगश्रेष्ठप्रेतमुक्तिम् समाचरेद यो नमन्यदे मन्य प्रेदान् मृतप्रेतत्वमाप्नुयाद प्रेद दोषकुल यस्य सुखं तस्य न विद्यते महिप्रीति रतिर्बुद्धिर्लक्ष्मी पञ्चविनाशनं तृतीये पञ्चमे पुंसि वंशच्छेदो हि जायते दरिद्रो पापकर्मा भवे भवे ये केचित् प्रेतरूपा रौद्ररूपा पराला मन्यन्ते नैव गोत्रम् सुतदुहितृपिदृन् भवादृजायाम् वधूं वा कृत्वा काम्यम् च रूपम् सुखकदिरहिता भाषमाणा यथेष्टम् आकष्टम् भोक्तु कामा विधि वशपतिदा संस्मरन्ति स्वपाकम् इति श्रीकारुडे महापुराणे उत्तरखण्डे द्वितीयांशे धर्मकाण्डे प्रेतकल्पे श्रीकृष्णगरुडसंवादे प्रेदा वा स बाधाप्रकारनिरूपणम् नाम विंशोऽध्यायः ओम् अध्यायम् 21 वन् गरुड उवाच मुक्तिं यान्ति कथं प्रेदास्तदहं प्रष्टुमुत्सुकः यन्मुक्तौ च मनुष्याणां नपीडा पीडा जायते पुनः एतैश्च लक्षणैर्देव पीडोक्ता प्रेतजा त्वया तेषां कदा भवेन्मुक्तिप्रेतत्वं न कथम् भवेद प्रेदत्वे हि प्रमाणं च कति वर्षाणि सङ्ख्यया चिरम् प्रेदत्वमापन्न कथम् मुक्तिमवाग्नुयात् श्रीकृष्ण उवाच मुक्तिम् प्रायन्ति ते प्रेदास्तदहम् यदैव मनुजो वैति मम पीडा कृदात्वियम् हिदमन्विच्छन्तेवादयेद पृच्छार्थं हृद मन्विच्छन्तैवज्ञे विनिवा विनिवादयेद स्वप्ने दृष्टशुभो वृक्षत्फलिद च्युत चम्बकः विप्रो वृषभो देवो भ्रमदे तीर्थगो यदि एवं दृष्टो यदा स्वप्नो मृदकोऽपि स्वगोत्रजः स्वप्ने सत्यं परिज्ञाय दृष्टं प्रेदप्रभावदः अद्भुतानि प्रदृश्यन्ते प्रेददोषाद्विनिश्चितं तीर्थस्नाने मदिर्यावच्चित्तं धर्मपरायणम् धर्मापायं प्रकुरुते प्रेदपीडा तदा व्रजेद तदा तत्र विनाशाय चित्तभङ्गं करोति सा श्रेयांसि बहु पदे पदे अश्रेयसि प्रवृत्ति प्रेरयन्ति पुनः पुनः उच्चाटनं च क्रूधत्वं सर्वं प्रेतकृतं खगः सर्वविघ्नानि सन्त्यज्य मुक्ति उपायं करोति यः तस्य कर्मफलं साधुप्रेतवृत्तिश्च शाश्वती स भवेत्तेन मुक्तस्तु दत्तं श्रेयस्करं परं स्वयं तृप्यति भोः ह्योद्देश्येन दीयते शृणु सत्यमिदं तार्क्ष्य यद्ददादिभुनक्तिसः आत्मानं श्रेयसा युञ्ज्यात् प्रेतस्तृप्तिं चिरं व्रजेद ते तृप्ता शुभमिच्छन्ति निजबन्धुषु सर्वदा अज्ञातयस्तु ये दुष्टाः पीडयन्ति निवारयन्ति तृप्तास्ते जायमानानुकम्पकाः पश्चात्ते मुक्तिमायन्ति काले प्राप्ते स्वपुत्रकः सदा बन्धुषु यच्छन्ति वृद्धिमृद्धिं खगाधिप दर्शनाद्भाषणाद्यस्तु चेष्टादः पीडनाद्गतिम् न प्रापयदि मूढात्मा प्रेदशापै स लिप्यते अपुत्रको पशुश्चैव दरिद्रो व्याधितस्तथा वृत्तिहीनश्च हीनश्च ही भवेज्जन्मनि जन्मनि एवं ब्रुवन्ति प्रेदा पुनरा पुनर्याभ्यं समाश्रुताः तत्र भवेन्मुक्ति स्वकाले कर्म संक्षये गरुड उवाच नामगोत्रं न दृश्येद प्रती जायते केचिद्वदन्ति दैवज्ञापीडां प्रेदसमुद्भवाम् न स्वप्नश्चैष्ठितं नैव न कदाचन किं कर्तव्यं सुरश्रेष्ठतत्र मे ब्रूहि निश्चितम् श्रीभगवानुवाच सत्यं वाप्यानृतं वापि वदन्ति क्षिदिदेवताः तदा सञ्चिन्त्य हृदये सत्यमेतद्विचेरितं भावभक्तिं पुरस्कृत्य पितृभक्तिपरायणः कृत्वा कृष्णबलिं चैव पुरश्चरणपूर्वकं जपहो मयिस्तधा दानै प्रकुर्याद्देहशोधनं कृतेन तेन विनश्यन्ति खगेश्वर भुतप्रेदपिशाचैर्वा स चैदन्यै प्रपीड्यते पितृद्देशेन वैकुर्यानारायणबलिं तदा विमुक्तसर्वपीडाभ्य इति सत्यं वजो मम पितृपीडा भवेद्यत्र कृत्यैरन्यैर्नमुच्यते तस्मात् सर्वप्रयत्नेन पितृभक्तिपरो भवेद नवमे दशमे वर्षेऽपिक्षुद्देशेन वैभुमान् गायत्रीमयुधं जक्त्वा दशांशेन च होमयेद कृत्वा कृष्णबलिं पूर्वं ऋष्यो सर्गाधिकाक्रियाः सर्वोपद्रवहीनस्तु सर्वसौख्यमवाप्नुयाद उत्तमं लोकमाप्नोति ज्ञादिप्राधान्यमेव च पितृमातृसमं लोके नास्त्यन्यद्दैवदं परं तस्मात् सर्वप्रयत्नेन पूजयेत्पितरौ सदा हितानामुपदेष्टा हि प्रत्यक्षं दैव पिदा अन्याया देवता लोके न शरीरमेव जन्तूनां स्वर्ग मोक्षैकसाधनम् देहो दत्तो हि येनैवम् कोन्यः पूज्यतमस्तदः इति सञ्चिन्त्य हृदये पक्षिण्यद्यत् प्रयच्छति तत्सर्वमात्मना भुङ्कृते दानम् वेदविदो विदुः पुन्नाम नरकाद्य अस्मात् तस्मात्पुत्र इति प्रोक्त इह चापि परत्र च चा। अपमृत्युमृदौ स्यादाम् पितरौ कस्यचित्थग व्रततीर्था विवाहादिश्राद्धम् संवत्सरम् त्यजेद स्वप्नाध्यायमिमम् यस्तु प्रेद लिङ्गनिदर्शकम् यः पठेशृणु यद्वाभिप्रेदचिह्नम् न पश्यति इति श्रीकारुडे महापुराणे द्वितीयांशे धर्मकादल्पेदकल्पे श्रीकृष्ण गरुडसंवादे स्वप्नाध्यायो नामैकविंशोऽध्यायः ॐ